सभापर्व अथ प्रथमोऽध्यायः नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् वैशंपायनवाचा ततो ब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ प्राञ्जलिश्लक्ष्णया वाच पूजयित्वा पुनः पुनः मय उवाच अस्मात् कृष्णात् सुसंरब्धात् पावकाच्च दिधक्षतः त्वया त्रातोऽस्मि कौन्ते य ब्रूहि किं करवाणि ते अर्जुनवाच कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुरा प्रीतिमान् भव मे नित्यं प्रीतिमन्तो वयं च ते मय उवाच युक्तमेतत्त्वयि विभो यथाथ पुरुषर्षभा प्रीतिपूर्वमहं किञ्चित् कर्तुमिच्छामि भारत अहं हि विश्वकर्मा वै दानवानं सोऽहं वैत्वत्कृते त्वत्कृते कर्तुम् किञ्चिदिच्छामि पाण्डवा दानवानाम् पुरा पार्थ प्रासादाहि मया कृताः रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः उद्यानानि च रम्याणि सरांसि च विचित्रानि च शस्त्राणि रथाः कामगमस्तथा नगराणि विशालानि साट्टप्राकारतोरणैः वाहनानि च मुख्यानि विचित्राणि सहस्रशः बिलानि रमणीयानि सुखयुक्तानि वैभृशम् एतत् कृतं मया सर्वं तस्मानिच्छामि फाल्गुणा अर्जुन उवाच प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया एवं त्वया न चापि तव सङ्कल्पम् मोघमिच्छामि कृष्णस्य क्रियताम् किञ्चित् तथा प्रतिकृतम् मयि चोदितो वासुदेवस्तो मयेन भरतर्षभा मुहूर्तमिव सन्दग्ध्यौ किमयम् चोद्यतामिति ततो विचिन्त्यमनसा लोकनाथ प्रजापतिः चोदयामास तम् कृष्णः सभावै क्रियतामिति यदि त्वम् कर्तुकामोऽसि प्रियम् शिल्पवतां वरा धर्मराजस्य दैतेयादृशीमिह मन्यसे यां कृताम ुकुमान प्रेक्ष्य सकले विस्मता मनुष्यलोक यत्र कुर वै सभाव्या पश्ये मई कृता आसुरान्नुषाच सभां तु म